सूर्योपनिषत् श्रीगुरुभ्यो नमः हरिः ॐ भद्रं कर्णेभिः शृणुजामदेवाः भद्रं पश्ये माध्यभिर्यजत्राः चिरैरङ्गै एतुष्टुवागं शस्तनूभिः यशेमदेव हितैजदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति न पूषा विश्ववेदा स्वस्ति नस्ताक्षो अरिष्टदेवीः स्वस्ति ॐ शान्ते शान्ति शान्तिः हरिः ॐ अथ सूर्याथर्वाङ्गिरसंव्या आख्यास्यामः ब्रह्मा ऋषिः आदित्यो देवतां हंससोऽहमग्निनारायणयुक्तं बीजं उल्लेखा शक्तिः व्यदादिसर्गसंयुक्तं कीलकं चतुर्विधपुरुषार्थसिद्ध्यर्थे विनियोगः षट् स्वरारूढेन बीजेन षडङ्गं भक्ताम्बुजसंसितं सप्ताश्वरथिनं हिरण्यवर्णं चतुर्भुजं पद्मद्वयाभयवरदहस्तं कालचक्रप्रणेतारं श्रीसूर्यासूर्यनारायणं य एवं वेद स वै ब्राह्मणः ॐ भूर्भुवः सुवः तस्य वितुर्वरे एण्यं भर्गो देवश्च धीमहि यो न प्रचोदयात् सूर्य आत्मा जगतस्तस्तु शश्च सूर्याद्वै खल्वमानि भूतानि जायन्ते सूर्याद्ध पर्जन्यो ॐ नमात्मा नमस्ते आदित्य त्वमेव प्रत्यक्षं कर्म कर्तासि त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं विष्णुरसि त्वमेव प्रत्यक्षं रुद्रोषि त्वमेव प्रत्यक्षं मृगसि त्वमेव प्रत्यक्षं यजुरसि त्वमेव प्रत्यक्षं सामासि त्वमेव प्रत्यक्षमथर्वासि त्वमेव सर्वं छन्दोषि आदित्याद्वायुर्जायते आदित्याद् भूमिर्जायते आदित्यादापो जायन्ते आदित्या ज्योतिर्जायते आदित्याद्भ्योमदिशो जायन्ते आदित्यादेवा जायन्ते आदित्याद् वेदाजायन्ते आदित्यो वा एष एतन्मण्डलं तपते। असवादिब्रह्मा आदिकरण मनोबुद्धचित्ताहकारा आदि वै ज्यान सनो दानोपानाण आो वै श्रोच्चुशन खाण आदि वै व्पाणी पादस्था आदित्यो वै शब्दस्पर्शरूपरसगन्धाः आदित्यो वै वचनादानागमनं विसर्गानन्दाः आनन्दमयो विज्ञानमयो विज्ञानधन आदित्यः नमो मित्राय भानवे, मृत्यो ओर्मा पाहि राजिष्णवे विश्वहेतवे नमः सूर्याद्भवन्ति भूतानि सूर्येन पालितानि तु सूर्ये लयं प्राप्नुवन्ति य सूर्यसोऽहमेव चक्षुर्नो देवः सविता चक्षुर्न उत पर्वतः चक्षुर्धाता दधातुनः आदित्याय विद्महे सहस्वरणाय धीमहि तन्न शर्याप्रचोदयात् सविता पुरस्ता सविता पश्चात्ता आ सवितोत्तरात्ता आसविता धरस्ता आ सविता न सुवतु सर्वथा आतिगं सविता न ओर्रासतां दीर्घमायुः ॐमित्येकाक्षरं ब्रह्मा गृणृति द्वे अक्षरे ऐ सूर्यक्षरदय आदि तिण्यक्षरातरो मनु य स हर, हर जपति शव ब्राह्मणोति शवई ब्राह्मणोती तो महाव्याधी भयामुच्य अलक्ष्मीर्नश्यति अभक्ष भक्षण पू तो अगम्यामना पू तो अतिथिभाषण भवती असत्संभाषण भवती मध्यान्ह सूर्यामुखपे सद्योत्पन्न पंच महात का आ मुच्य से तैः सावित्रीं विद्यां न किञ्चिदपि न कस्मैचित् प्रशंसयेत् य एतां महाभागप्रात् पठति स भाग्यवान् जायते वसुन्विन्दति वेदार्थं लभते त्रिकालमेतज्जप्त्वा क्रतुसत्फलमवाप्नोति हस्तादित्ये जपति स महामृत्युं तरति च महामृत्यं तरति य वेद इत्युपनिषत् ॐ शां तेषां तेषान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु